स्वरूपमाहात्म्यम् अहंहितैजसंरूपम् आस्थाय वसुधातले वसामि चात्रसिद्ध्यर्थम् अरुणाचलसञ्ज्ञया अयम् सदाशिवः साक्षादरुणाचलरूपतः दृश्यते परमम् तेजः सर्गस्थित्यन्तकारणम् अरुणाचलरूपेण तिष्ठामि वसुधातले तस्य दर्शनमात्रेण भविता ते तमक्षयः अग्नितेजोमयम् रूपम् आदिमध्यान्तवर्जितम् सम्प्राप्यतस्थौ तन्मध्ये दिशो दश विभासयन् एतत्तु तैजसंलिङ्गम् सर्वदेव नमस्कृतम् दृश्यते कर्मभूरेषा तेन धर्मादिकामता तत्र ते दर्शयिष्यामि तैजसंरूपमात्मनः सर्वपापनिवृत्त्यर्थम् सर्वलोकहिताय च स्मरणमाहात्म्यम् नामस्मरणमात्रेण यत्पातकविनाशनम् शिवसारूप्यणम् नित्यम् मह्यम् वद दयानिधे स्मरणमाहात्म्यम् स्मरणेन मनः श्रोत्रे श्रवणात् दर्शनादृशोः जौवाञ्चकीर्तनाच्छोणक्षेत्रम् सद्यः पुनात्यलम् अस्मिन् स्मरणमात्रेण तारतम्यम् विचिन्त्यताम् यद्गङ्गायाम् प्रयागे यत् यद काश्याम् वै पुष्करेषु यत् चराचराणाम् भूतानाम् जानतामप्यजानताम् यस्य स्मरणमात्रेण मुक्तिस्तद्वददेशिक लेभे च परमम् स्थानम् अप्राप्यम् अमरैरपि भरतो मृगशावस्य स्मरणादायुषोच्चये अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य भजनममितपुण्यराशियोगा तरुणगिरे कृतिनः परं लभस्व दर्शनमाहात्म्यम् दृष्ट्वा समस्तैर्दुरितैर्मुच्यन्ताम् सर्वजन्तवः तथेति देवदेवेन प्रोचेथान्तर्दधे गिरौ भिनश्यति क्षणात् सर्वम् अरुणाचलदर्शनात् प्रदक्षिणा नमस्कारैः स्मरणैरर्जनैः इस्तवै नक्षत्रे कृत्तिकाख्येऽस्मिन्स्तेजस्ते दृश्यताम् परम् तद्वीक्षितम् इदम् तेजः परमम् प्रतिवत्सरम् आराधितोऽयम् भगवानरुणाद्रिपतिश्यवः दृष्टो हरति पापानि सेवितो हरती पापा सेवत ऋणद्दिर्वोकेभ्य परुष पापसंचयो न यस्मिन् दृष्टे ते यृष्टे तेनाचल नृण्च दर्शना दूरे कल्यं स्मरणेन वस्तुदाव न साध्यम निष्प्रयास प्रदक्षिहात्म्यं मदक्षिणाकर्तना जायत शुभा प्रच प्रकार दकारो वांचत प्रदि क्षीयते कर्म नकारो मुक्तिद दुर्बलाह कार्श्य संयुक्ता आदिव्याजृंताूराणा निकर्षाच प्रदक्षिणा अभी पापा पंसास्तुश्रेयस प्रद स्थल महात्म्य किद वत्से उधत्य भुजमुच्यते अरुणक्षेत्रतो नान्यत् अलम् स्वर्गापवर्गयोः एष दक्षिणकैलासो यो सावरुणपर्वतः अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो योजनत्रयविस्तीर्णमुपास्यम् शिवयोगिभिः तद्भूमेर्हृदयम् विद्धि शिवस्य हृदयङ्गमम् अस्ति दक्षिणदिग्भागे द्राविडेषु तपोदनं। अरुणाख्यम् महाक्षेत्रं। तरुणयन्दुशिखामणेः अगस्त्यम् दक्षिणे भागे महदुदारिज्जत आगस््यम दक्षिणे भागे तीर्थम महदुदारत संधि त्र मज्जता स्तबमात्म्य सर्ववेदस्वरूपाय नित्यायामृतमूर्तये कालाय करुणार्द्राय दृष्टिपेयामृताब्धये इति वेदाः स्तुवन्ति त्वाम् अरुणाद्रीशसन्ततम् नमस्ताम्राय चारुणाय शिवाय परमात्मने अरुणाचलमाहात्म्यम् ब्रह्मणामपि कोटिभिः ब्रह्मणा विष्णुना पूर्वम् सोमभास्करवन्निभिः यथापुरा दाशक्यते पुनर्वक्तं यथा पुरा कीर्तितोऽपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः तेजस्तम्भमयम् रूपम् अरुणाद्रिरिति श्रुतम् हृगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः तत्तत्पापनिवृत्त्यर्थम् तत्तद्दीप्सितसिद्धये अरुणाद्रिरयम् द्रोणाम् सर्वकल्मषनाशनम् कैलासे मेरिशृङ्गे वा स्वस्थानेषु कलाद्रिषु नास्ति वैराग्यतः सौख्यम् नास्ति मुक्तेः परम् पदम् नारुणाद्रेः सममेरुर्न कैलासो न भवति प्राप्तं मरुणाचलसन्निधौ पुरा ब्रह्मा च विष्णुश्च शिव तेजंशसम्भवौ साहङ्कारौ ययुधतुः परस्परजिगीषया तथा तयोर्गर्भशान्त्यै योगिद्येयः सदा शिवः फला माहात्म्यम् अरुणेऽस्मिन् महाक्षेत्रे देहिभिर्लब्धजन्मभिः जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः ध्यायन्तो योगनश्चित्ते शिवसायुज्यमाप्नुयुः यो। दत्तम् हुतम् च यत्किञ्चित् जप्तम् चान्यत्तपः कृतम् यस्यानुग्रहमिच्छामि जन्तोस्तस्यातृसम्भवः देहान्ते कल्पताम् मुक्त्यै विन उपनिषदि गिरः सकृत्सङ्कीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे सन्निधिः सर्वकामानाम् जायते चागनाशनम् भजस्वतैजसंलिङ्गम् सर्वदोषनिवृत्तये वाचकम् मानसम् पापम् कायिकम् वाचयद्भवेत् इदमनुभववैभवम् विचित्रम् दुरितहरम् शिवलिङ्गमद्रिरूपम् अमलमनपिगम्य नामधेयम् वरमरुणाद्रिनायकम् भजस्व ओम नमो भगवते श्री अरुणाचलरमणाय नमो नमः ध्यामश्लोकः नीलारुविन्दसुहृदासदृशं प्रसादे तुल्यं तथा महसितो यजबान्धवेन ब्राह्म्यां स्थितौ तु पितरं वटमूलवासम् संस्मारयन्तमचलन्तमनोदितं मे